गरुडपुराणम् आचारकाण्डम् अध्यायम् 41 वासुदेव उवाच ॐ विश्वावसुर्नाम गन्धर्वकन्यानामधिपतिर्लभामि ते कन्याम् समुत्पाद्य तस्मै विश्ववासवे स्वाहा स्त्रीलाभोमन्त्रजाप्याश्च कालरात्रिम् वदाम्यहम् ॐ नमो भगवति वृक्षकर्णि चतुर्भुजे ऊर्ध्वके शित्रिनयने कालरात्रिमानुषाणाम् वसारुधिरभोजेन अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फट् हन हन दहदह मांसरुधिरम् पचपच वृक्षपत्निः स्वाहा न नक्षत्रम् नोपवासो विधीयते क्रुद्धो रक्तेन सम्मार्ज्य करौताभ्याम् प्रगृह्य प्रदोषे सं जपेल्लिङ्गमामपात्रम् च मारयेद ओम् नमः सर्वतो यन्द्राण्ये तद्यथा जम्भनि मोहनि सर्वशत्रु सर्वशत्रुविदारिणि रक्षरक्ष माममुखम् सर्वभयोपद्रवेभ्यः स्वाहा शुक्रे नष्टे महादेव वक्ष्येऽहं द्विजपादिह यदि श्रीगरूढे महापुराणे आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणम् नामैक चत्वारिंशोऽध्यायः ओ अध्यायम् फोर्टि टु हरिरुवाच पवित्रारोपणम् वक्ष्ये शिवस्य शिवनाशनम् आचार्य साधक कुर्यात्पुत्रकः समयोहर संवत्सर कृताम् पूजाम् विग्नेश्यो हरतेऽन्यधा आषाढे श्रावणे माखे कुर्याद् भाद्रपदेऽपि वाक् सौवर्णरौप्यताम्रम् च सूत्रम् कार्पासिकम् क्रमाद ज्ञेयम् कुजादौ सङ्ग्राह्यम् कन्यया कर्तितम् च त्रिगुणीकृत्य तद कुर्यात् पवित्रकम् वामदेवेन सत्येन क्षालयेच्छिव अघोरेण दुः भवेद धूपये दीश्यमन्त्रेण तन्तुदेवा स्मृताः ओङ्कारश्चन्द्रमा वन्यर्ब्रह्मा नागः शिखिध्वजः रविर्विष्णुशिव प्रोक्तक्रमा तन्तुषु देवताः अष्टोत्तरशतम् कुर्यात् पञ्चाशत्पञ्चविंशतिम् पंचा रुद्रोत्तमादिविज्ञेयम् मानम् च चतुरङ्गुलान्तरास्योर्ग्रन्थिनामानि चक्रमाद प्रकृतिपौरुषी वीरा चतुर्थी चापराजिता जया च विजया मनोन्मनी सर्वमुखी द्वि अङ्गुलाङ्गुलदोधवा रञ्जयेत् पवित्रकम् सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे क्षीरादिभिश्च संस्थाप्य लिङ्गम् गन्धादिभिर्यजेद दद्याद्गन्धपवित्रम् तु आत्मने ब्रह्मणे हर पुष्पम् गन्धयुदम् दद्यान्मूलेनेशानगोचरे पूर्वे च दण्डकाष्ठम् तु उत्तरे चामलकी फलम् मृत्तिकाम् पश्चिमे दद्या दक्षिणे भस्मभूदयः नैहृदे ह्य गुरुम् दद्याचिका मन्द्रेण मन्त्रविद वायव्यां सर्षपम् दद्यात् कवचेन वृषध्वज गृहं संवेष्ट्य सूत्रेण दद्या होमं होमम् कृत्वाग्नये दत्त्वा दद्याद्भूतबलिं तद्धा आमन्त्रितोऽसि देवे शकणैः सार्धम् महेश्वर प्रादत्त्वाम् पूजयिष्यामि अत्र सन्निहितो भव निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिगं मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वदः स्नात्वादित्यं चतुर्दश्यां प्रा गृग्रं च प्रपूजयेद् ललाडस्तं विश्वरूपं ध्यात्वात्मानं प्रपूजयेद् अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथा संहितामन्त्रितान्येव धूपितानि समर्पयेद शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः आत्मतत्त्वात्मकं पश्चाद्देव काख्यं ततोर्चयेद ॐ हौं हौं शिवतत्त्वाय नमः ॐ ह्रीं विद्यातत्त्वाय नमः आत्मतत्त्वाय नमः ॐ हां ह्रीं हूं क्षौं सर्वतत्वाय नमः कालात्मना देव यद्दृष्टं मामगे विद्धौ कृतं क्लिष्टं समुत्सृष्टं हुदं गुप्तं च यत्पृतं सर्वात्मनात्मना शम्भो पवित्रेण पूरय पूरय मखव्रतं तन्नि तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां ह्रीं हूं हैं हौं शिवाय नमः पूर्वैरनेन यो दध्यात्मवित्राणां चतुष्टयं दत्वा वह्ने पवित्रम् च गुरवे दक्षिणाम् दिशेद बलिम् दत्त्वा द्विजान्भोज्य चण्डम् प्राच्यै विसर्जयेत् इति श्रीगारूढे महापुराणे आचारकाण्डे शिवपवित्रारोपणम् नाम द्विचत्वारिंशोऽध्यायः ओम् अध्यायम् फार्टि हरिरुवाच पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः पुरा देवासुरे युद्धे ब्रह्माद्याचरणं ययुः विष्णुश्च तेषां देवानां ध्वजं ग्रैवेयकं ददौ येदौ दृष्ट्वा विनङ्क्ष्यन्ति दानवानब्रवीधरीः विष्णोक्ते ह्यब्रवीनाव वासुकेरनुजस्तदा वृणीदज पवित्राख्यं वरं चेदं ग्रैवेयं हरिदत्तं तु मन्नाम्नाख्यादिमेष्यति इत्युक्ते तेन ते देवास्तन्नाम्ना तद्वरं विदुः प्राभृत्काले तु ये मर्त्या नार्चयिष्यन्ति नार्चिष्यन्ति पर्वित्रकैः तेषाम् सां वत्सरी पूजा विफला च भविष्यति सर्वेषु देवेषु पवित्रारोपणम् क्रमाद प्रतिपत् पौर्णमास्यान्ता यस्य या तिथिरुच्यते द्वादश्याम् विष्णवे कार्यम् शुक्ले कृष्णेधवाहर व्यदीपाधेयने चैव ग्रहेशिव शिव विष्णवे वृद्धिकार्ये च रागमने तथा नित्यं पवित्रमुद्दिष्टम् प्रावृत्काले त्ववश्यकम् कौशेयम् पट्टसूत्रं वा कार्पासं सं क्षौम मेव वा द्विजानाम् स्याद्राज्ञा कौशेयपट्टकम् वैश्यानाम् चीरणम् क्षौमम् शूद्राणाम् क्षणवल्कजम् कार्पासम् पद्मजम् चैव सर्वेषाम् शस्तमीश्वर ब्राह्मण्याकर्तितम् सूत्रम् त्रिगुणम् त्रिगुणीकृतम् ओङ्कारोऽध शिवसोमो विघ्नेस्यो विष्णुरित्येते स्थितास्तन्दुषु देवताः ब्रह्मा विष्णुश्च रुद्रश्च त्रिसूत्रे देवता स्मृदाः सौवर्णे राजदेताम्रे वैणवे मृण्मयेन्यसेद अङ्गुष्टेन च दुःषष्टिश्रेष्ठमध्यं तदर्थदः तदार्थादुकनिष्ठास्य सूत्रमष्टोत्तरं शतम् उत्तमं मध्यमम् चैव कन्यः सम्पूर्ववत्क्रमाद् उत्तमोऽष्ठमानेन मध्यमो मध्यमेन दु कन्यस्ये च कनिष्ठेन अङ्गुल्या ग्रन्थय स्मृताः विमाने स्तण्डिले चैव एतत् सामान्यलक्षणम् शिवोद्धृतम् पवित्रम् तु प्रतिमायाम् च कारयेद् हृन्नाभिरूरु माने च जा जानुभ्यामवलम्बिनी अष्टोत्तरसहस्रेण चत्वारो भ्रन्थय स्मृताः षट्त्रिंशश्च चतुर्विशद्वादशग्रन्थयो ध उत्तमादिषु विज्ञेय पर्वभिर्वा पवित्र तम् चर्चितम् कुङ्कुमेनैव हरिद्राचन्दनेन सोपवासपवित्रम् तु पात्रस्थमधिवासयेत् अश्वपत्रपुटके अष्टदिक्षु निवेशितम् दण्डकाष्ठम् कुशाग्रम् च पूर्वे सङ्कर्षणेन दु रोचना कुङ्कुमेनैव प्रद्युम्नेन दु दक्षिणे युद्धार्थीबलसिद्ध्यर्थमनिरुद्धेन पश्चिमे चन्दनमीलयुक्तम् च तिलभस्माक्षदम् तथा आग्नेयादिषु कोणेषु श्रियादीनां तु क्रमान्यसेद पवित्रम् वासुदेवेन अभिमन्त्र्य सकृत् सकृद दृष्ट्वा पुनः प्रपूज्याथ वस्त्रेणाच्छाद्य यत्नदः देवस्य पुरदस्ताप्यम् प्रतिमा मण्डलस्य वा पश्चिमे दक्षिणे चैव उत्तरे पूर्ववत्प्रमाद ब्रह्मादींश्चापि संस्थाप्य पलशं चापि पूजयेद् अस्त्रेण मण्डलं कृत्वा नैवेद्यं च समर्पयेत् अधिवास्य पवित्रं तुत्री सूत्रेण नवेण वा वेदिकां वेष्टयित्वादु आत्मानम् कलशम् घृदं अग्निकुण्डम् विमानं च मण्डपम् गृहमेव च सूत्रमेकं तु सङ्गृह्य दद्य देवस्य मूर्धनी दत्त्वा पठेदिमम् मन्त्रम् पूजयित्वा महेश्वरम् आवाहितोऽसि देवेश पूजार्थम् परमेश्वर तत्प्रभातेऽर्चयिष्यामि सामग्र्याः भव एकरात्रम् तिरात्रम् वा अभिवास्य पवित्रकम् रात्रौ जागरणम् कृत्वा प्रादसम्पूज्य केशवम् आरोपयेत् क्रमेणैव ज्येष्ठ मध्यकनीयसम् दूपयित्वा पवित्रम् तु मन्त्रेणैवाभिमन्त्रयेद प्रजप्तग्रन्थिकम् चैव पूजयेत् कुसुमादिभिः गायत्र्यार्चर्चितं तेन देवं सम्पूज्य दापयेद समं पुत्रकलत्राध्यै सूत्र पुच्छं तु धारयेद विशुद्धग्रन्थिकं रम्यं सर्वपापक्षयं देव तवाग्रे धारयाम्यसं एवं धूपादिनाभ्यर्च्य मध्यमादीन् समर्पयेद पवित्रं वैष्णवं तेजः सर्वपादकनाशनं धर्मकामार्थसिद्ध्यर्थं स्वकण्ठे धारयाम्यहं वनमालां समभ्यर्थ्य स्वेन मन्त्रेण दापयेद नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेद अग्निं सन्तर्प्य तत्रापि द्वादशाङ्गुलमानदः अष्टोत्तरशदेनैव दद्यादेकपवित्रकम् आदौ दत्त्वार्घ्यमादित्येतत्र चैकं पवित्रकम् विश्वक्सेन ततः प्राच्य सुरुमर्घ्यादिभिर्हर देवस्याग्रे पठेन्मन्त्रम् कृताञ्जलिपुडस्थितः ज्ञानदो ज्ञानदो वापि पूजनादिकृतं मया तत्सर्वं पूर्णमेवास्तु त्वत्प्रसाद सुरेश्वर मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः इयं साम्बत्सरी पूजा तवास्तु गरुडध्वज वनमाला यथा देवकौस्तुभं सतदं हृदि तद्वत्पवित्रं तन्दूनां मालां त्वं हृदयेधर प्रार्थ्य दत्वा जाभ्य द्वा तेभ्य दक्षिणा विसर्जय ते सायाघ्नेपरेहनी सांवत्सरी संपाद विधिव्रजे पवित्रकेदाननीं विष्णुलोक विसर्जिशे महापुराणे आचारकाण्डे विष्णुपवित्रारोपणम् नाम त्रिचत्वारिंशोऽध्यायः ओ गरुडपुराणम् आचारकाण्डम् अध्यायम् 44 फोर् हरिरुवाच पूजयित्वा पवित्राद्यैर्ब्रह्मध्यात्वा हरिर्भवेद ब्रह्मध्यानं प्रवक्ष्यामि माया यन्त्रप्रमर्दकम् यच्चेद्वाङ्मनःसम्प्राज्ञस्तम् यजे ज्ञानमात्मनि ज्ञानम् महति सं यच्चेद्य इच्चे ज्ञानमात्मनि देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् वर्जितं भूत तन्मात्रायिर्गुणजन्माशनादिभिः स्वप्रकाशं निराकारं सदानं दमनादियद नित्यं शुद्धं बुद्धं वृद्धं सत्यमानन्दमद्वयं तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् अहं ब्रह्मेत्यवस्थानं आत्मानं रधिनं विद्धिशरीरम् रथमेव तु बुद्धिं च सारथिं विद्धि मनः प्राग्रहमेव च इन्द्रियाणि हयानाहो वृषयास्तेषु गोचराः आत्मेन्द्रियमनो युक्तो भोक्देत्याहुर्मनीषिणः यस्तु विज्ञानब्राह्मेन युक्तेन मनःसा सदा स दु तत्पद्माप्नोति स हि भूयो न जायते विज्ञानसारधिर्यस्तु मनःप्रग्रहवान्नरः स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम् अहिंसाधिर्यमप्रोक्तः शौचादिर्नियमस्मृदः आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः प्रत्याहारो जयप्रोक्तो ध्यानमीश्वरचिन्तनम् मनोधृतिर्धारणा स्यात् समाधिर्ब्रह्मणि स्थितिः पूर्वं चेत स्थिरं न स्यात् ततो मूर्तिं विचिन्तयेत् हृत्पद्मकर्णिकामध्ये शङ्खचक्रददाब्जवान् श्रीवत्सकौस्तुभयुदो वनमाला श्रिया युधः नित्यशुद्धो भूदियुक्त सत्यानन्दाह्वयः परः आत्मासं परमं ब्रह्मपरमं ज्योतिरेवदु चतुर्विंशतिमूर्तिः स शालग्रामशिलास्थितः द्वारकादिशिला संस्थो ध्येयपूज्योऽप्यहं च सः मनसो भी दम् प्राप्य देवो वैमानिको भवेद निष्कामो मुक्तिमाप्नोति मूर्तिम् ध्याय यं स्तुवम् जपन् यदि श्रीगारूढे महापुराणे आचार्यकाण्डे ब्रह्ममूर्तिर्ध्याननिरूपणम् नाम चतु शोध्यायः ओ अध्यायम् 45. हरिरुवाच प्रसङ्गात् कथयिष्यामि शालग्रामस्य लक्षणम् शालग्रामशिलास्पर्शात् कोऽपि जन्माखनाशनम् सङ्घचक्रगदापत्नी केशवाख्यो गदाधरः सज्जकौमादगी चक्रशङ्घी नारायणो विभुः स चक्र शङ्खाग्जगदो माधवश्रीगदाधरः गदब्जशङ्खचक्री चक्रिवा गोविन्दोर्च्यो गदाधरः पद्मशङ्खाजिगादिने विष्णुरूपाय ते नमः स शङ्खाग्जगदाचक्र मधुसूदनमूर्तये नमो गदारि शङ्खाब्जयुक्तत्रैविक्रमाय च सारिकौमोदगी पद्मशङ्खवामनमूर्तये चक्राब्ज शङ्खगादिने नमः श्रीधरमूर्तये ऋषिकेशायाब्ज गदा शङ्गिने चक्रिणे नमः साब्ज चक्रगदा शङ्कपद्मनाभस्वरूपिणे शङ्कचक्रगदापत्मिन् दामोदरमनो नमः सारिशङ्कदाब्जाय वासुदेवाय वै नमः शङ्खाब्जचक्रवादिने नमः सङ्घर्षणाय च सुशङ्कसुगदाब्जारिधृदे प्रद्युम्नमूर्तये नमो निरुद्धाय गदा शङ्खाब्जारी विधारिणे साब्ज शङ्खगदा चक्रपुरुषोत्तममूर्तये नमो दोक्षजरूपाय गदा शङ्खारिपत्मिने नृसिंहमूर्तये पद्मगदा शङ्खारिधारिणे पद्मारि शङ्खखगदिने नमोऽस्त्वच्युदमूर्तये स शङ्खचक्राब्जगजम् जनार्दनमिहानये उपेन्द्रः सकदः सारिः पद्म शङ्घिन् नमो नमः सुचक्राब्जगदा शङ्खयुक्ताय हरिमूर्तये सगदाब्जारि शङ्खाय नमः श्रीकृष्णमूर्तये चालग्रामशिलाद्वार गदलग्नद्विचक्रधृकशुक्लाभो वसुदेवाक्यसोव्याध्वश्रीगदाधरः लग्नद्विचक्रोरप्रदासपूर्वभागस्तु पुष्कलः सङ्घर्षणोदप्रद्युम्नः सूक्ष्मचक्रस्तु पीतकः सदीर्घः सशिरश्चिद्रो नीलोद्वारित्रिरेखश्च अथ नारायणोऽसिदः मध्येवादकृतिरेखानाभिचक्रो क्रमः ना पृदुवक्षा नृसिंहोवक्कपिलो व्यात्रिबिन्दुकः अथवा पञ्चबिन्दुस्तत्पूजनम् ब्रह्मचारिणः वराकशक्तिलिङ्गोऽव्याद्विषमद्वयचक्रकः नीलस्त्रिरेखस्तुलोध कूर्ममूर्तिस्स बिन्दुमान् कृष्णस्य वर्तुलावर्तपादुवो नदपृष्टकः श्रीधर पञ्जरेखो व्याद्वनमाली गदाङ्गितः वामचक्रसुरेश्वरः वा। नाना वर्णो नेकमूर्तिर्नान भो नागभो गीत्वनन्दकः मध्ये वक्र सुनीलकः सङ्गीर्णद्वारकसौव्यादधब्रह्मासुलोहिदः सदीर्घरेक सुषिर एकचक्राम्बुजपृधुः कृष्णो विष्णुश्च बिल्ल्ववद हयग्रीवों कुशाकार पञ्चरेखस कौस्तुभः वैकुण्डो मणिरत्नाथ एतच्छक्राम्बुजोऽसिदः मत्स्यो दीक्कोम्बुजाकारो द्वाररेखश्च पादुवः रामचक्रो दक्षरेखस्यामो वो शालग्रामोद्वारकायां स्थिताय या गदिने नमः एकद्वारश्च दुश्चक्रो वनमाला विभूषितः स्वर्णरेखासमायुक्तो गोष्पथेन विराजितः कदंबकुसुमाकारो लक्ष्मीनारायणो वधु एकेन लक्षितो यो सुदर्शनः लक्ष्मीनारायणो द्वाभ्याम् त्रिभिर्मूर्तिस्त्रिविक्रमः चतुर्भिश्च चतुर्व्यूहो वासुदेवश्च पञ्चभिः प्रद्युम्न षडुभिरेवस्य सङ्गर्षण इदस्तदः पुरुषोत्तमोऽष्टभिः स्यान्नवव्यूहो नवाङ्गिदः दशावतारो दशभिरनिरुद्धोऽवतादध द्वादशात्मा द्वादश बिरद ऊर्ध्वमनन्दकः विष्णोर्मूर्तिमयं स्तोत्रम् यपटे स दिवं व्रजेद ब्रह्मा चतुर्मुखो दण्डी कमण्डलुयुगान्विदः महेश्वरपञ्चवक्रो दशबाहुर्वृषध्वजः यथा युधस्तथा गौरी चण्डिका च सरस्वती पत्म महालक्ष्मीमादरस् पदस्तों दिवाक गजाच गणस्कोने गुणा ये प्रसादे वास्तु पूजिदे देर्चिताच प्रसाद वास्तुजि धर्मा कामोक्षाद्याप्यी गुड़े महापुराणे आचारकाण्डे शालग्राममूर्तिलक्षणम् नाम पञ्चचत्वारिंशोऽध्यायः ओम् अध्यायम् फार्टिसिक्स् हरिरुवाच वास्तुम् सङ्क्षेपदो वक्ष्ये गृहादौ विघ्ननाशनम् ईशानकोणादारभ्यहे काशीदिपदे यजेद ईशाने जिरपादौ नैहृदेग्न्यनिलेकरौ आवासवासवेश्मादौ पुरे ग्रामे वणिक्पथे प्रासादा रामदुर्गेषु देवालयमढेषु ज द्वाविंशतिसुरान् बाह्ये तदन्तश्चत्रयोदश ईशश्चैवाधपर्जन्यो जयन्ध कुलिशायुधः सूर्यसत्यो भृगुश्चैव आकाशो वायुरेव च पूषा च विदद्धश्चैव ग्रहक्षेत्रयमावुभौ गन्धर्वी भृगुराजस्तु मृगपितृगणस्तब्धा द्वौ वारिकोधसुग्रीवः पुष्पदन्तो गणाधिपः असुरस्य शपापौ रोगोडिमुख एव च बल्लाढ सोम सर्पौ च अदिदिश्च दिदिस्तधा बहिर्द्वात्रिंशदे तदन्तश्चदुरश्रुणु ईशानादि चतुष्कोणसंस्थितान् पूजयेद्धुनः आपश्चैवाध जयो जयोरुद्रस्तथैव मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपदान् देवानेकोत्तरानेदान् पूर्वादौ नामधशृणु अयमा सविता चैव विभस्वान् विबुधाधिभः मित्रोधराजयक्ष्मा च तथा पृथ्वीधरक्रमाद अष्टमश्चाभवत्सश्च परिदो ब्रह्मण स्मृदाः ईशानकोणादारभ्य दुर्गे च वंश उच्यते आज्ञेयकोणादारभ्य वंशो भवति दुर्धरः अदितिं किमवन्तं च जयन्तं च इदं त्रयं नायिकालिका का नाम शक्राद् गन्धर्वगा पुनः वास्तुदेवान् पूजयित्वा गृहप्रासादकृद् भवेद् सुरेज्यपुरदकार्यो यस्याग्नेय्यां महानसं कपि निर्गमने येन पूर्वदसत्रमण्डपं गन्धपुष्पगृहं कार्यमैशान्यां पट्टसंयुधं भाण्डागारं च कौबेर्यां गोष्ठागारं च वायवे उदगाश्रयं च वारुण्यां पदायनसमन्वितं समित् कुश्येन्धनस्थानमायुधानां च नैहृदे अभ्यागदालयं रम्य सशय्याशनपादुकं तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणदो भवेत् गृहान्तराणि सर्वाणि स जलैकदली गृहैः पञ्चवर्णैश्चभुसुमैशोभितानि प्रकल्पयेत् प्राकारम् तद्बहिर्दद्यात् पञ्चहस्तप्रमाणदः एवम् विष्णुवाश्रमम् कुर्याद्वनैश्चो भवनयर्युदम् चतुष्षष्टिपदो वास्तु प्रासादादौ प्रपूजितः मध्ये चतुष्पदो ब्रह्मा द्विपदास्त्वर्यमादयः कर्णे चैवाद शिख्याद्यास्तदा तेभ्यो क्षुभयदः सार्धा धन्ये विद्युपदा सुराः चतुष्षष्टिपदा देवा इत्येवं परिकीर्तिताः चरकी जगितारी च पूतना पापराक्षसी ईशानाद्यास्तदो वाक्ये देवाद्या हेदुपादयः ऐदु कस्त्रिपुरान्तश्च अग्निवेदालकौयमः अग्निजिह्वकालकष्टकरालोह्योकपादकः ऐशान्याम्भीमरूपस्तु पादाले प्रेतनायकः आकाशे गन्धमाली स्याक्षेत्रपालांस्ततो यजेद् विस्ताराभिहदं दैर्घ्यं राश्यं वास्तोऽस्तु कारयेद् कृत्वा जवत्सुभिर्भागं शेषं बद्धायमादिशेद पुनर्गुणितमष्टाभिर्वृक्षभागं तु भाजयेद यच्चेष्टं तद् भवेद् वृक्षं भागैर्हृत्वा व्ययं भवेद वृक्षं च दुर्गुणं कृत्वा नवभिर्भागभारितं शेषमंशं विजानीयाद्देवलस्य मदं यद्भा पिण्डं षष्टिभिर्भागभारितं यच्चेष्टं तत् भवेज्जीवं मरणं भूदहरिदम् वास्तुक्रोडे गृतं कुर्यान्न पृष्ठे मानवः सदा वामपार्श्वेन स्वपिति नात्रकार्याविचारणा सिंहकन्या तुलायां च द्वारं शुद्ध्ये एवम् च वृच्छिकादौ स्यात् द्वारं द्वारम् दीर्घार्थविस्तारम् द्वाराण्यष्टौ स्मृतानि च सन्तानप्रेष्यनि स्वयानं त्वम् स्वयानम् स्वर्णभूषणम् सुदहीनम् तु रौद्रेण वीर्य दक्षिणे तथा वह्नौ वधश्चायोर्वृद्धिम् पुत्रलाभ सुतृप्तितः धनदे नृपीडादम् अर्धघ्नं रोगदं जले नृपपीतिर्मृदापत्यं ह्यनपत्यं न वैरदम् अर्धदं चार्धहान्यै च दोषधं पुत्रमृत्युदं द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम् अग्निभीतिर्बहु कन्या धनसम्मानगोपदम् राजघ्नं गोपदं पूर्वे फलतो द्वारमीरिदम् ईशानादौ भवेत् पूर्वमाग्नेयादौ तु दक्षिणं नैऋत्यादौ पश्चिमंस्याद्वायव्यादौ तु चोत्तरम् अष्टभागे कृदेभागे भागे, भागे च फलाफलम् अश्वदप्लक्षग्रोधापूर्वाद सियादुदुर गृह शोभन प्रोक्त इशाने ईशाने चालमलि पूजि विघ्नहारी सहसा गृह से गारूडे महापुराणे आचारकांडे स्तुमानलक्षणम् नाम शोध्यायः ओम् अध्यायम् 47 सेवेन् सुद उवाच प्रासादानाम् लक्षणम् च वक्ष्ये शौनकतशृणु चतुष्षष्टिपदम् कृत्वा दिग्विदिक्षूपलक्षितम् चतुष्कोणम् चतुर्भिश्च द्वाराणि सूर्यसङ्ख्यया चत्वारिं साष्टभिश्चैव भित्तीनां कल्पना भवेद् ऊर्ध्वक्षेत्रसमाजङ्का जङ्कार्धद्विगुणम् भवेद् गर्भविस्तार विस्तीर्णशुकाङ्घ्रिश्च विधीयते तत्त्रिभागेन कर्तव्यपञ्चभागेन वा पुनः निर्गमस्तु शुकाङ्क्रश्च उच्छ्राय शिखरार्धकः चतुर्था शिखरम् कृत्वा त्रिभागे वेदिबन्धनम् चतुर्थे पुनरस्यैव कण्ठमामूलसाधनम् अथवापि समं वास्तुम् कृत्वा षोडशभागिकम् तस्य मध्ये चतुर्भागमादौ तु कारयेद चतुर्भागेन भित्तीनामुच्छ्राय स्यात् प्रमाणदः द्विगुणशिखरो्रायो भित्त्युच्छ्राय भित्त्युच्चायाच्चमानदः शिखरार्धस्य चार्धेन विधेयास्तु प्रदक्षिणाः चतुर्दिक्षु तथा ज्ञेयो निर्गमस्तुस्तथा बुधैः पञ्चभागेन संभज्य गर्भमानं विचक्षणः भागमेकं गृहीत्वा दु निर्गमं क्लपयेत् पुनः गर्भसूत्रसमो भागाद्रव्रदो मुकमण्डपः यद सामान्यमुद्दिष्टं येदसामान्यमुद्दिष्टम् प्रासादस्य हि लक्षणम् लिङ्गमानमधो वीक्ष्य पीठो लिङ्गसमो भवेद् द्विगुणेन भवेद्दर्भ समन्ताच्चौनगध्रुवम् तद्विधा च भवेद्भीतिर्जङ्गद्विस्तरार्धग द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनः पीडगर्भवरं कर्म तन्मानेन सुकाङ्घ्रिकम् निर्गमस्तु समाख्यादशेषं पूर्व वदे वदु लिङ्गमानं स्मृतं ह्येदद्वारमानमथोच्यते पराग्रं वेदवत् कृत्वा द्वारं भागाष्टमं भवेद विस्तरेण समाख्यादं द्विगुणं स्वेच्छया भवेद द्वारवत्पीठमध्ये दुशेषं भवेद पादिकं शैर्षिकं भित्तिर्द्वारार्धेण परिग्रहाद तद्विस्तारसमाजङ्घाशिखरं द्विगुणं भवेद सुकाङ्घ्रिक्पूर्ववेया निर्गमोच्छ्रायकम् भवेद मण्डपे मानमे दत्तु स्वरूपम् चापरं वदे त्रैवेदम् कारयेत् क्षेत्रम् यत्र तिष्ठन्ति देवताः युद्धम् कृतेन मानेन बाह्यभागविनिर्गतम् नेमि पादेन विस्तीर्णा प्रसादस्य समन्ददः गर्भम् तु द्विगुणम् कुल्यान्नेम्यामानम् भवेदिह स एव भित्तेरुत्सेधो शिखरो द्विगुणो मदः प्रासादानाम् च वक्ष्यामि मानम् योनिम् च मानदः वैराजपुष्पकाख्यश्च कैलासो मालिकाह्वयः त्रिविष्टपम् च पञ्च इसादात् सर्वयोनयः प्रथमश्चतुरश्रोहि द्वितीयस्तु तदा यतः वृत्तो वृत्तायतश्चान्योष्टाश्रश्चेह च पञ्चमः यदेभ्य एव सम्भूता भद्रकः सर्वदा भद्रो नंदनस्तधा नन्दनस्तथा नन्दिवर्धनसंज्ञश्च श्रीवत्सश्च न वेत्यमी चतुरस्रा वैराजा वैराजादिगम्यदां वलिभी गृहराजश्च शाला गृहं च मन्दिरं विमानं च तदा ब्रह्ममन्दिरं भवनं तथा उत्तम्भम् शिबिका वेश्म न वैदे पुष्पकोद्भवा वलयो दुन्दुभिपद्नोमः पद्मस्तथा वरः मुकुली चास्य उष्णीषी शङ्खश्च कलशस्तथा भुवा वृक्षस्त गजोधवृषभोहंसो गरुडः सिंहनामकः भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः वृत्ता यदा समुद्भूतान्न वैते मणिकाह्वयाद वज्रम् चक्रम् तदान्युच्चमुष्टिकम् बभ्रु सन्निदम् वक्रस्वस्तिकखड्गौ जगदाश्रीवृक्ष एव च विजयो नाम दशेधस्त्रिविष्टिपसमुद्भवाः त्रिकोणं पद्ममर्थेन्दुश्च दुष्कोणं द्विरष्टकं यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु राज्यं च विभवश्चैव पुत्राभस्त्रीय पुष्टिस्त्रिको भवेद कुल्यागम्द्वाजिगर्भगृहम तथा मंडप सख्यासूत्रकथ मंडप से चुर्ध्याद्रकार विजानता स्पर्धागवाक्षको व्येदो निर्गवाक्षोध वा भवेद सार्धभित्तिप्रमाणेन भीतिमानेन वा पुनः भित्तेर्द्वै गुण्यदो वापि कर्तव्या मण्डपा क्वचिद् विषमभूमिका परिमाणविरोधेन रेखा आधारस्तु चतुर्धारश्चतुर्मण्डपशोभितः शतशृङ्गसमयुक्तो मेरुप्रासाद उत्तमः मण्डपस्तस्य कार्तव्या भद्रा स्त्रिभिरलङ्कृताः घटनाकारमानानाम् भिन्ना भिन्ना भवन्ति ते कियन्तो येषु चाधारा निराधाराश्च केचन प्रतिच्छन्तकभेदेन प्रासादाः सम्भवन्ति ते अन्योन्याः संस्करास्तेषां खडनानामभेदः देवतानां विशेषाय प्रासादा, दे देवताना प्रासादा बहवः स्मृताः प्रासादे नियमो नास्ति देवतानां स्वयं भुवन् तानेव देवतानां च पूर्वमानेन कारयेद चतुरस्रा यतस्तत्र चतुष्कोणसमन्विताः चन्द्रशालान्विता कार्याभेरी शिखरसंयुगा पुरदोवाहनानाम् च कर्तव्या लघ्नमण्डपाः नाट्यशाला च कर्तव्या द्वारदेशसमाश्रया प्रसादे देवतानाम् च कार्या दिक्षु विदिक्षु अपि द्वारपालाश्च कर्तव्या मुख्या गत्वा पृथक् पृथक् किञ्चिदूरधकार्या मठस्तत्रोपजीविना प्रावृदा जगती कार्याफलपुष्पजलान्विदा प्रसादेषु सुरां स्थाप्य पूजाभिपूजये नरः वासुदेवः सर्वदेवः सर्वभा सर्व तत् गृहादिकृत इति श्रीगरुडे महापुराणे आचार्यकाण्डे प्रासादलिङ्गमण्डपादिलक्षणनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॐ